सोऽयम् विश्वविसर्ग दत्त हृदयः सम्पश्यमान स्वयम् बोधम् कल्वनवाप्य विश्वविषयम् चिन्ताकुलस्तस्थिवान् तावत् त्वम् जगताम् पते तपकपेत्येवम् हि मैषायसीम् वाणी मे नमसि